मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टिसिक्स् सुन्दरप्रियविषयप्रियवधः श्रीगणेशाय नमः दक्ष उवाच वदब्रह्मन्विशेषेण मम हर्षकरीं कथां विस्तरेण महाभाग वक्रतुण्डप्रभावजाम् मुद्गल उवाच न शक्यतेऽग्निपुत्रेण विस्तरेण पिना किना शेषेण विधिना वक्तुं संक्षपेण ब्रवीम्यतः दक्ष उवाच किमुक्तं दैत्यपुत्राभ्यां शङ्करेण श्रुतं वद श्रुत्वा तत् किम् तेन महादेवेन मानद दैत्याभ्याम् किं कृतं तत्र तद्वदत्वम् विशेषतः श्रुत्वा त्वद्वदनाम्भोजात्पथाम् तृप्याम्यहं न सूत उवाच एवमादरमाज्ञाय दक्षस्य प्रयदात्मनः मुद्गलस्तमुवाचाथ हर्षयुक्तः स मुद्गल उवाच दैत्यपुत्रौ महावीर्यौ शङ्करं क्रोधसंयुतौ यदूचतुश्च तत्सर्वं शृणु दक्षप्रजापदे मत्सरपुत्रा तिष्ट महादेव पश्य पौरुषमावयोः ज्ञादं त्वदीयं सामर्थ्यं न च गन्तुं त्वमर्हसि अस्मदीया महासेनागता सर्वा सदाशिव। दैत्येन्द्राः पादिताः सर्वे त्वया शङ्करतेजसा पौरुषं दर्शितं पूर्णं सर्वदेवादिकं महद अधुना त्वां खनिष्यावो वक्रतुण्डस्य पश्यतः त्वां हत्वा वक्रतुण्डं च खनिष्यावो न पश्चात्सर्वान् सुरेन्द्रांश्च तदो सुरान् एवमुक्त्वा महादेवं धनुःसज्जं प्रचक्रतुः तावुवाच महादेवस्मयमान इदं वचः शिव उवाच भवद्भ्यां गदिदम् क्रूरम् तत्सर्वं तद्यमेवच अधुनापन्नों वक्र तो महाबलः भूभारहरणा वैभवदा नाशनाय चधुना सगध कालो विपरीन कर्मण वक्रतुंड हनिषा सवत्स असुरम् बलमत्यर्थं पापरूपं न संशयः इत्युक्त्वा बाणवृष्टिं स चक्रे वै शङ्करः प्रभुः महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनी तां च चिच्चिदुर्दैत्यो स्वशरैरधिवघृतैः तौ मण्डपं क्षणेनैव चक्रदुःशरसम्भवं तद्बाणैरपि ते देवाश्चिन्ना भिन्ना कृता मुने शङ्करो विस्मितो भूत्वा शूलमुग्रं मु मोचः आकतं कालरूपं च शूलं दृष्ट्वा महासुरौ महास्त्रं तौ पाशुपदम् मोचयामासतुस्तदा अनिवार्यं महोग्रं वै सर्वभस्मकरं परं जज्ज्वालतेजसा सर्वं ब्रह्मांडं व्याकुलं तदः त्रिशूलं निष्फलम् तेन महास्त्रेण कृतं क्षणाद शिवस्य हृदये गत्वा पपातभयदायकम् मूर्च्छितशङ्करस्तेन पदितो धरणीतले हाहाकारश्च सर्वत्र देवसैन्ये तदो भवद पदिदं शङ्करं दृष्ट्वा वक्रतुण्डो महाबलः स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः गणेशदूतमुख्यास्तेष्वष्ठौ तत्राययुः परि स्वां स्वां सेनां समादाय महाकाय महाबलाः प्रमोदश्चैष आमोदस्तथा ब्रह्मप्रियो मुने योगप्रियश्च स्वानन्दभोक्ताज्ञानमयश्च हि सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाभवन् श्रमहीनाः शदादित्योगिना जाताः प्रभावदः तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने एतस्मिन्नन्तरे तत्र कविना जीवितास्तथा दैत्या समुद्धिता सर्वे नीरुजश्च महाबलाः प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समन्ददः ब्रह्माण्डमखिलं तेन सनादमभवत्परं ततो देवगणाः सर्वे शङ्खनादं प्रचक्रिरे तेन दैत्यगणाभीता बधिरा इव ते शङ्खानां चैव भेरीणां दुन्दुभीनां स्वरैः परैः वीराणां क्ष्वेडिदेनैव हेषितैर्बृंहितस्वनैः रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने परस्परं सम्पदं च वीक्ष्य वीक्ष्य च विस्मिताः तस्वे काले प्रमोदाद चक्रिरे शस्त्रृषिचक्रिरे दैत्यमोनी शस्त्रण सर्वाणी ह्यमो महामुने चिच्चिदुर्दैत्यराजान मस्तकानि भुज ब्रह्मिियो महा बाहुशुक्रम धृ प्रपश्यता असुराण गूर गुहायाँ चाक्षिपुनि गुक्रम तृष्टवा दैतियाे भया आहाकारं प्रचक्रुस्ते किं भविष्य विख्वलाक्षिता गुरुरत्युग्रः पश्यदाम्नो महासुराः नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृदा वयम् अधुना क्व गमिष्यामस्तस्माद्युद्भ्यामहे वयं वा मोचयिष्यामस्तं स्वतेजसा परस्परं चेदि दैत्या उक्त्वा मरणनिश्चयाः उदा युधाश्च सर्वे ते युयुधुर्देवसैनिकैः व्यङ्गादेवाकृतास्तैस्ते पदिधारणमूर्धनि आहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः तदो ब्रह्मप्रियाध्याये कुपिता शस्त्रधारिणः परशुप्रमुखैः शस्त्रायस्त्रिशूलाङ्कुशपाशकैः श्वस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः तैरस्त्रैर्दैत्यसेनाया कथनं कृतमञ्चसा श्वमृता दैत्यामूर्च्छिताश्चाबरे वनौ पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने तदो दैत्यकुमारौ ता वा गदौ रणमूर्धनि ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महासुरौ दैत्यपुत्रौ च दुः प्रमोदामोदपाद्याश्च भवद्भिर्बलमञ्जसा हदं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः अधुना मरणं प्राप्तं समीपे वः प्रदृश्यतां शास्त्राय लान् यमुक्त्वा स्वणांस्तौ ववर्षतुरधासुरौ ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ सर्वग सर्वविच्चैव सबलौ धृततार्मुकौ बाणवृष्टिं तु संवार्य बाणाम् पदुफ परान, शिषिपुपाणों जुक्काल यमोपम दैत्या सर्वान्चक्रुस्िन्न भिन्ना मुने मृदा मुमोर्षभ के जिदी दाधरणे तले अकस्माद्रक्तसम्भूता नदी तत्र प्रवर्तिता तयोर्बलम् निरीक्ष्यैव कम्पितौ दैत्यपुङ्गवः दा। अग्न्यस्त्रम् धनुषिः श्रेष्ठम् ददधुक् प्रोधसंयुतौ यावन्ममुच दुस्तावत्परशूयमसन्निभो आगतौ ज शिरश्छेदं दैत्ययोश्चक्रदुःक्षणाद मत्सरस्य सुतौ वीक्ष्य मृदौ सर्वे भयातुराः मत्सरं शरणं जग्मुचुर्वृत्तान्तमञ्जसा दैत्या ऊचुः शृणु दैत्यश्च वृत्तान्तं रणभूमिसमुद्भवम् महाभयङ्करं घोरं कथितुं शक्यते न च प्रह्लादप्रमुखा सर्वे कादिदारणमूर्धनी मृततुल्या मृदा वा किमस्माभिर्ज्ञायते न च तव मृतौ सङ्ग्राममण्डले कृदा युद्धं परशुभ्याम् महामते अकस्माद्वक्रतुण्डस्य गणौ द्वौ समुपस्थितौ ताभ्यां चैव हदौ वीरौ स्वल्पकालेन दैत्यपा वक्रतुण्डसमश्चैव न भूतो न भविष्यति स्वान्ते च संज्ञाय देवं तं शरणं व्रज नो चेद् दैत्यगणा सर्वे नाशं यास्यन्ति निश्चितं मा गर्वं कुरु दैत्येश दैत्यान् रक्षमहामदे ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे सुन्दरप्रिय वक्रतुण्डचरिते वधो नाम षट्त्रिंशोऽध्यायः ओ